3 20 महोदरचर अध्या वर्णधर्मशम श्रीगणेशा नम नरनायणचु वर्णाच्वां ते स्वस्वयुता मुने ब्राह्मण क्षत्रियो वैश्यशृणु शूद्रः प्रकथ्यते व्यभिचारेण तेषां वै जादा महामुने नानाविधा विशेषेण जानीह्यत्र न संशयः तत्र ब्राह्मणधर्मं ते कथयामि समासदः शृणु मायाविनाशार्थं मायारूपम् पुरातनं चतुर्था ब्राह्मणानां वै वृत्तिशास्त्रैः प्रकीर्तिता उञ्चशिलं तथा शुक्लं मृदं चामृतकम् भवेत् अयाचितम् च भूमेर्यत्कर्षणं वा वने तेषां मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहितः गृहीतं कृषिकैर्धान्यं तत्रशिष्टं शिष्टं तदग्रहं कणादितस्य योगेन देहपोषणमाचरेत् अथवा वाणिजादीनां गृहेभ्यो मार्जितं भवेद् कणादितस्य योगेन देहपोषणमाचरेत एका वृत्तिरियं प्रोक्ताद्वितीया शृणुसाम्प्रदं भूमे कर्षणहीनेन वृष्ट्यान्नं तत्रजायते जायते तेनैव देहनिर्वाहकर्तव्यो ब्राह्मणैः सदा शुक्लवृत्याचरेद्भैक्ष्यम् रागलोभविवर्जितः तेन देहस्य निर्वाहं सकुर्यात्तन्मृदं स्मृतम् अयाचितेन वा कार्यो मृदमेदत्प्रकीर्तितम् कृषीवलैष भूमेर्यत्कर्षणं वा समाचरेद तत् त्रध्यानोद्भवेनैव देहपोषणकं चरेत स्वधर्मः पूर्वभागेते कथितश्च महामुने सेवादिवृत्तियोगेन तिष्ठेन्न ब्राह्मणकदा क्षत्रियाणां च शस्त्रादिधारणेन महामुने देहनिर्वाहकः प्रोक्तो न सेवाकारको भवेद अग्निहोमं च विप्रश्य हस्तेनायं समाचरेत् संन्यासं नैव विप्रेष्य कुर्यात् क्षत्रियजकदा वैश्योऽपि क्रियकारी वैविक्रयं च तथा चरेद पालनमादराद, भूमेर्गवाम्पालनमादराद सन्न्यासधर्महीनश्च सदा तिष्ठेत्समानद क्षत्रियाणां विशाम् विप्रयजनं दानमेव समाख्यादं त्वध्ययनं नप्रोक्तं याजनादिकं यानादिकम् अग्निकर्म तथा देवार्चनं ब्राह्मणहस्ततः कारयेद्वैष्यधर्मज्ञस्वधर्मपालनाय वै तर्पणं ब्राह्मणस्येन मन्त्रेण दुः समाचरेत एष वैश्यस्य मार्गो वै कथितस्ते द्विजोत्तम शूद्रस्य दुत्रिवर्णानाम् सदा सेवा प्रकीर्तिता दासवन्नात्र सन्देह आश्रमो गृहि सञ्ज्ञितः दानम् दद्या द्विजायैव पुराणश्रवणम् तथा कुर्याद्वेदाक्षरस्यायं न कुर्याच्छ्रवणम् कदा पुराणादिषु देवानामवताराः प्रकीर्तिताः तेषाम् मूर्तिप्रतिष्ठा वै कृता देवर्षिभिः पुरा तासां स्पर्शादिकम् चैव न कर्तव्यम् कदाचन नादिश्चर् स्वेच्छया स्थाता भवद तस्पर्शच कर्तव्य शुद्रैर्म महामुने ना मंत्रेण पूजा वै कर्तव्यास्म तथा मृत्ति सभ्यर्चेन्मंत्रेण वह मु आवाहनादिप्रारभ्य विसर्गान्तं समाचरेत पुराणसम्भवैर्मन्ध्रै श्राद्धतर्पणकादिकम् ब्राह्मणानां मुखैश्चैव शूद्रैः कर्तव्यमादराद न पुराणादिसम्भूता श्लोकास्ते शूद्रजातिभिः पठितव्या महाभागश्रवणं सम्मदं सदा अन्त्यजातिभवा शूद्राष्टैर्नामस्मरणं सदा कर्तव्यं देवमूर्तीनां स्पर्शो नैव कदाचन पुराणसम्भवैर्मन्त्रैर्न एर कर्तव्यं महामुने कर्म किञ्चिच्च तैः सर्वैः स्वस्वधर्मपरायणैः पितॄणां देवतानां चोद्देशं कृत्वा धनाधिकं धान्यं तैः सम्प्रदातव्यमेषमार्गः पुरातनः स्वस्वधर्मरतायेदे स्वर्गगामिन एव च भवन्ति नात्र सन्देहो महाभोघाः सुखे रताः प्राजापत्यं ब्राह्मणानां क्षत्रियाणां तधैन्द्रकं वायवं वैश्यजातीनां गांधर्वं शूद्रजन्मिनां स्वकर्मरतानां वै पदं प्रोक्तं मनीषिभिः तत् त्र ते भोगभोक्तारो भवन्त्यत्र न संशयः एवम् मायामयं स्वल्पं वर्णधर्मप्रकाशनम् शृणोदि यः पढेत्तस्य मायामोहो विद्यते ॐ तत्सदिति पुराणो पुराणोपनिषदि महापुराणे तृदे धर्म प्रकाशो नाम ओं